हरि ओं श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे दशाधिकशत संवत्सर रावणस्य स्त्रीणां विलापः रावणं नियतं श्रुत्वा राघवेण महात्मनः अन्तः पुरात् विनिष्पेतु शोककर्चितः वार्यमाणा सुबहुशो वेष्टन्त्यः क्षितिपांशुषु विमुक्तकेश्य शोकाता गावो वत्सहता इव उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसै प्रविश्या यो धनम् घोरम् विचिन्हन्त्यो हतम् पतिम् आर्यपुत्रेति वादिन्यो हानाथेति च सर्वशः परिपेतु कमन्धाकाम् महीं शोणितगर्द माम् ता बाष्परिपूर्णाख्यो भत्रुशुल्कपराजितः करिण्यैव नर्दन्त्य करिण्वो हत यूथपः ददृशुस्ता महाकायम् महावीर्यम् द्युतिम् रावणम् नियतम् भूमौ नीलाञ्जनचयोपमम् ताः पतिम् सहसा दृष्ट्वा शयानम् रणपांशुषु निपेतु तस्य गात्रेषु छिन्ना वन लता परिष्वज्य काचिदेन रुरोधः चरणो काचिदालम्ब्य काचित् कण्ठे वलम्ब्य च उत्क्षिप्य च भुजो काचित् भूमौ सूपरिवर्तते हतस्येवदनम् दृष्ट्वा काचिद् मोहम्पागत काचिदङ्के शिरक् कृत्वा त्रिरोद मुखमीक्षति स्नापयन्ति मुखं वाजपेयी तुषारये पङ्गजम् एवं माता पतिं धृष्ट्वा रावणं निहसं भुवि चुक्रुषु बहुधा शोकात् गोय तापर्यन् येन वित्रासितश्चक्रो येन वित्रासितो यमः येन वैश्रवणो राजा पुष्पकेन वियोजितः गन्धर्वाणाम् ऋषीणाम् च सुराणाम् च महात्मनम् भयम् येन ऋणे दत्तम् सोऽयं शेते रणे हत असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योऽपि वा तथा भयं यो न विजानाति तस्येदम् मानुषद्भयम् अवध्यो देवतानां य तथा दानवरक्षत सोऽयं रेषेते मानुषेण पदाति न यो न शक्यः सुरेर्हन्तुम् न यक्षे सुरे न सुर तथा एवं वदन्त्यो रुरुदु तच्च दुःखिता श्रियः भूयैव च दुःखाता विलेपुश्च पुनः पुनः अशुण्वता दूसुहृदम् सततं हितवादिनां मरणाय रुतासीता, सीता राक्षसा च निभाषितः एता समम् च पातितः णोऽपि हितम् वाक्यम् इष्टो भ्राता विभीषणः दृष्टम् परुषितो मोहा त्वया स्मवधकाङ्क्षिणा यदि निर्यासिता ते स्यात् सीतारामाय मैथिली नस्या व्यसनम् घोरम् इदम्बोल हरम् महत् रामो मित्रकुलम् भवेत् वयं च विधवा सर्वा सकामान च शत्रवः तया पुनर्षन्तेन सीतां संवृन्धता बल राक्षसा वयमात्मा च त्रयं तुल्यं निपातितं न कामकारः कामं वा तव राक्षस भुङ्गव दैवं चेतयिते सर्वं हतं दैवेन हन्यते वानराणां विनाशोऽयम् राक्षसानां च तेरणे तव महाबाहो दैवयोगात्पागतः नैवार्थेन च कामेण विक्रमेण न च अन्यय शक्यादेव गति लोके निवर्तयितुमुद्यत विलेपु एवं देनास्ता कुरर्य इव दुःखाता बाष्पर्यः कुलेक्षणः इत्याख्ये श्रीमद् रामायणे वाल्मीकि अधिकारे युद्धकाण्डे दशाधिकशतमः स्वर्ग श्री सीतारामचन्द्रार्पणमस्तु